श्रीमद्भागवत् महापुराणं चतुर्षस्कन्ध अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवोरृणां भ्रंसितो ज्ञानविज्ञानाद्येनाविस्मिशति मुख्यतां न कुर्यात् कर्हि चित्सङ्गं तमस्तिभ्रंतिरिषु धर्मार्थकाममोक्षाणां यदन्त्यन्तभिघातकम् तत्रापि मोक्ष एवार्थ आत्यन्तिकेष्यते तैवर्ग्योऽर्थो यतो नित्यं कृतांत परे परे च ये भावा गुणव्यतीकरादनु न तेषां विद्यते क्षेमम् ईश विध्वंसिताशिषम् तत्त्वं नरेन्द्रजगतामदं दसृतां च देहेन्द्रिया सुधीष्णात्मभिरापितानाम् यक्षेत्रवित्तपति या श्रीविश्वगावी प्रद्यब्जकासि भगवान् तमुवेहितोऽस्मि यस्मिन्निदं सदसदात्मतया विभाति मायाविवेकविदुते स युवाहि बुद्धि तं नित्यमुद्रपरिशुद्य विबुद्धतत्त्वं प्रत्यूढकर्मकलिलं प्रकृतिं प्रपद्ये यत्पादपङ्कजपलाशविलासभक्त्या कर्माशयं ग्रथित मृदं ग्रथयन्ति सन्तः तद्वन्नरिक्तमतयो यतयोऽपिरुद्ध स्रोतो गुणास्मरणं भज वासुदेवं कृच्छो महानिह भवाणप्लवेषां षड्बर्गनक्रमं मकसुकेन तितीर्शन्ति तत्त्वं धरे भगवतो भजनीयमङ्घ्रिं कृतो रूपं विसनमुत्तरन्दुस्तरार्णं मैत्रीवाच स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधतां दर्शितात्मगति सम्यग्स्योवाच तं नृपः राजोवाच हितोमनुग्रहपूर्वं हरिणार्तानुकम्पिनां तमापादयितुं ब्रह्मन् भगवन्यूयमागताः निष्पादितस्य काष्णीलभगवद्भिर्घृणानुभिः साधुशिष्टं हि मे सर्वम् आत्मनाश किं ददे प्राणाद् ब्रह्मन् गृहास्य सपरिच्छदाः राज्यं बलं महीकोश इति सर्वं निवेदितं सेनापत्यं चराज्यं चराज्यं च राज्यं च दण्डनेत्रित्वमेव च सर्वलोकाधिपत्यं च वेदशास्त्रभिदर्हति स्वयमेव ब्राह्मणो भोक्ते स्वं स्वं ददाति च तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः यैरीति श्रीभगवतो गतिरात्मवादे एकान्ततो निगमिभिः प्रतिपादिता नः तुस्यन्तदभ्र करुणाः स्वकृतेन नित्यं को नाम तद्वृतीकरोति विनोदपाद्रं नैत्रे त आत्मयोगपतय आजिराजेन पूजितः शीलं तदीयं शंसन्त खे भुवन्मिषुतां नृणां वैज्ञश्चो धुर्यो महतां संसृत्याध्यात्मशिक्षयाम् आप्तकाममिवात्मानं मेन आत्मन्यवस्थितः कर्माणि च यथा कालं यथा देशं यथा वरं यथोचितं यथा वित्तम् फलं ब्रह्मण्यमिन्यस्य निर्विषङ्गसमाहितः कर्माध्यक्षं च मन्वान् आत्मानं प्रकृते परं गृहेषु वर्तमानोऽपि स साम्राज्यश्रियान्वितः नासज्जतेन्द्रियार्थेषु निरहं वतीरकवत् एवमध्यात्मयोगेन पुत्रानुत्पादयामास पञ्चार्चिस्यात्मसम्मताम् प्रीतास्वं धुमृके संहर्यक्षं द्रविणमृकं सर्वेषां लोकपालानां दधारैकपृथर्गुणान् गोपीयाथ जगत्सृष्टे काले स्वे स्वे चितात्मकः मनोवाग्वृत्तिभिः सौम्यै गुणैः संरजयन् प्रजाहम् राजेत्यथान्नामधेयं सोमरावं राज इवापरः तुर्यवद्वे सृजन् गृह्णन् प्रतपश्च भुवो वशु दुर्धस्तेजसेवाभिर्महेन्द्रायु दुर्जयः प्रतिक्षया धरिद्रीव दौरिवाभीषतोग्नि वर्षति स्म यथा कामं पर्जन्यायुवतर्पयन् समुद्रायुदुर्बोध स्वेनाचलराणिव धर्मराणि शिक्षायाम् आश्चर्ये हिंवाणिव कुबेरयुवकोशाढो गुप्तार्थो वरुणो यथाम् मातुरिष्वेव सर्वात्मा पलेन सहसोजसाम् अविशय्यतया देवो भगवान् भूतराडिव कन्दर्पायुसौन्दर्ये मनस्वी मृगराडिव वात्सल्ये मनुवन्दृणां त्रिबुद्वे भगवानजः बृहद्पतिर्ब्रह्मवादे आत्मवद्वे स्वयं हरिः भक्त्या गों गोगुरुविप्रेषु विश्वक्षेणानुवर्तिषु प्रिया प्रश्रयशीलाभ्याम् आत्मतुल्यपरोद्यमे कृतोर्ध्वगीतया पुम्भि त्रैलोके तत्र, तत्र प्रविष्ट प्रविष्टकर्णरन्ध्रे सुीणां राम सतामिव दे श्रीमद्भागते महापुराणे प्रंजां चयितायां चतुर्शस्कन्धे भृतिचरिते द्वाविंशोऽध्यायः